मुद्गलपुराणं खण्डं फो गजाननचरितम् अध्यायं ट्वेण्टि टु चैत्रकृष्णचतुर्थीचरितवर्णनं श्रीगणेशाय नमः दशरथ उवाच चैत्रकृष्णचतुर्थी या तां मे वदमः मुने न तृप्यामि गणेशस्य कथां श्रुत्वा सुखप्रदां वसिष्ठ उवाच अत्र ते कथयिष्यामि चेदिहासं पुरातनं चतुर्थी महिमायुक्तं सर्वसिद्धिप्रदायकं कलिङ्गे नृपवल्यश्चोग्रसेनो धर्मतत्परः यज्वादानपरो नित्यं धर्मात्मा शंसितव्रतः शस्त्रास्त्रकुशलो धीमान् सत्यवाग्निधिसंयुतः जित्वा राजगणान् सर्वांश्चकार राज्यमुत्तमम् तस्य राज्ये नृपश्रेष्ठबभक्षुः सर्वमानवान् अपारास्तत्पुरे व्याघ्रासमागत्य महाबलाः उग्रसेनश्च शस्त्राैस्तान् जकान तथा स्मन शमं यान्ति व्याख्रा दैवोद्भवा यथा लोकात्सम्पीडिता व्याघ्रायर्निनिन्दुस्तम् नृपं तदा पापकर्मा नृपोऽयं वै प्रजाभ्यो दुःखदायकः धर्मयुक्तो यदा राजा प्रजास्तत्र सुखे रताः किं कर्तव्यं प्रजाभिश्च दुष्टे राजनित्यदा स राजर्षिर्दुदमुख्याच्छ्रुत्वा दुःखसमन्वितः ययौवनं प्रधानेषु राज्यं त्यक्त्वा सुदारुणम् तत्र गत्वा स ये कान्ते तताप तप उत्तमं सूर्यं ध्यात्वा च सौरैस्थं तोषयामास नित्यदा निराहारपरो राजा कदे वर्षे बभूवः अस्ति चर्मा वशेष तथापि तप आचरत तदो तद ब्राह्मणूपेण रविस्थ प्रजगा राजण्य तम विप्रलरापूजय तद फला भक्ष स उवाच राजसत्तमं तप किम राज देहं शोषयसेवद उग्रसेनस्तदो विप्रं तमुवाच कृताञ्जलिः दुःखेन महदा युक्तो निःश्वस्य उग्रसेन उवाच करोमि नितियुक्तेन राज्यं धर्मेण नित्यदा तत्र व्याक्रगणाक्रूरा नरान् सम्भक्षयन्ति भोः शान्दयेऽत्र मया तेषाम् नानो पाह्याकृदा मुने अपरास्ते भवन्तीह तदर्थं तप आचरम् राज्ञो वचनमाकर्ण्य विप्रस्तम् पुनरब्रवीद निन्दयन् सर्वभावेन साक्षाद्धानुप्रतापवान् द्विज उवाच महापापि त्वमेवासि कर्मदूषणदो नृप चतुर्धीजं व्रतं मुख्यं नष्टं राज्ये सुदुर्मदे सर्वादौ तत्प्रकर्तव्यम् सर्वसिद्धिप्रदायकम् तदा कर्मकृदम्भूप फलयुक्तम् भवेत् सदा चतुःपदार्थदम्पूर्णं व्रतानामुत्तमम् व्रतं व्याख्रास्तद्दोषभावेन पीडयन्ति मानवान् एवमुक्त्वा चतुर्धीजं माहात्म्यं द्विजसत्तमः श्रावयामास तस्मै सश्रुत्वा सोऽभूत् सुविस्मितः जगादहर्षसंयुक्तस्तं विप्रं ज्ञानदम्परं कृताञ्जलिप्रणम्य सौवचनं स्वहितप्रदम् उग्रसेन उवाच किं त्वं साक्षात् स्वयं भानुस्तपसा तुष्टचेतसा आगदो मे धन्योऽहं ते प्रदर्शनाद अधुना वद मे ब्रह्मन् गणेशस्य स्वरूपकं ज्ञात्वा तं देवदेवेशं भजिष्यामि विशेषतः द्विज उवाच शृणुराजन् गणेशस्य स्वरूपं योगदम्परं भुक्तिमुक्तिप्रदं पूर्णं धारितं चेन्नरेण वै चित्ते चिन्तामणिः साक्षात् पञ्चचित्तप्रचालकः पञ्चवृत्तिनिरोधेन प्राप्यदे योगसेवया असम्प्रज्ञादसंस्थश्च गजशब्दो महामदे तदेवमस्तगम्यस्य देहः सर्वात्मको भवत् भ्रान्तिरूपा महामायासिद्धिर्वामाङ्गसंश्रिता भ्रान्तिधारकरूपा च बुद्धिः सा दक्षिणाङ्गके तयो स्वामी गणेशश्च मायाभ्यां केलते सदा तं भजस्व विधानेन तदा शं लभसे नृप एवमुक्त्वा गणेशस्य ददौ मन्त्रं दशाक्षरं विधियुक्तं ततः सूर्योऽन्तर्धानं प्रचकारः गत्वा राजनगरे गधानैरमोदी कथयामस वृत्ताे सुखदायक तत्रद चैत्र गाष्णा चुर्धी सहसा गदा तकार विधेन गणेशे भक्ति समीपे नागरासंस्था नराग्रामान्तरे स्थिताः चक्रुस्ते हर्षसंयुक्ताः सङ्कष्टीं कष्टहारिणीं तत्सर्वत्र व्रतं मुख्यं प्रशस्तं स चकारः भयाद्धेन चक्रुस्ते जना भूमिस्थिताः परे ततो व्याघ्रा महोग्रास्म सर्वेऽन्तर्धानमाययुः रोगादिभिर्विनिर्मुक्ताश्चिक्रीडुर्हर्षिता जनाः राजागणपतिं नित्यमभजन् नान्यचेदसा गुरुरूपेण ना भानुंस पूजयामास नित्यता गते काले ततः पुत्रं ससंस्थाप्य महामधिः राज्ये निवृत्तिमास्थाय गणेशमभजत् अंदे अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूवः तस्य राज्ये जनाः सर्वे क्रमात्ते मुक्तिमाप्नुवन् एवं व्रतस्यमाघात्म्यं लेश्यदः कथितं मया अन्यशृणु महाभागपापनाशकरं परं द्राविडे भिल्लजाधिस्थः क्षत्रियः पापकारकः भिल्लै संस्कारहीनश्च सम्बन्धं स चकारः एकदा वनसंस्थश्च द्रव्यलोभीदुरात्मवान् कञ्चिद्दृष्ट्वा नरं तत्रा धावच्चत्र प्रधारकः पपालसोपि दूरं वै नरो भयसमन्वितः ऋक्षस्तत्र समायादो वने कश्चिन्महाबलः तेनैव क्षत्रिह्यः पापीधृतो वेगेन भूमिप वृक्षं सतं सशस्त्रेण पादयामास भूतले भिल्लस्तत्र पपातासौभृशमृक्षेण पीडितः निर्जने वनमध्येस स विललापातिदारुणम् दैवयोगेन सा देवी चैत्री सङ्कष्टहारिणी तद्दिने तेन सम्प्राप्ता चतुर्थी कृष्णपक्षगा जलान्न संविहीनोऽयं बभूवे पापपाचकः चन्द्रोदये फलं तत्र पपादनृपवृक्षदः दुष् अष्टे नक्षत्रियेणैव भक्षिदं विकलेन तत् पञ्चम्यां समृतस्तत्र ब्रह्मभूतो बभूवः एवं नानाजनाराजन् व्रतस्यैव प्रभावतः इह भुक्त्वाखिलान् भोगानन्दे ब्रह्मप्रलेभिरे तत्र ते तत्रते शक्यं न वक्तुं वर्षायुतैरपि ज्ञानेन सदृशं किञ्चिद्व्रतं सर्वार्थदायकम् अज्ञानेन कृतं दुष्टैर्व्रतं गणेश्वरं महद ब्रह्मभूतकरम् प्रोक्तं ज्ञानिनां तत्र का कथा इदं चैत्रचदुध्यायो माहात्म्यम् प्रपठेन्नरः शृणोदि चेच्च कृष्णाया स सर्वं प्रलभे ध्रुवम् ॐ तत्सदिति श्रीमदान्द्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते चैत्रकृष्णचतुर्थी चरितवर्णनं नाम द्वाविंशोऽध्यायः ओम्